सप्तविंशोऽध्यायः वैशंपायन उवाच ततो वनगताः पार्था सा याह्ने सह कृष्णया उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः प्रिया च दर्शनीया च पण्डिता च पतिव्रता अथ कृष्णा धर्मराजमिदम् वचनमब्रवीत् द्रौपद्युवाच न पापस्य दुःखमस्मासु विद्यते धातराष्ट्रस्य दृशम् सस्य दुरात्मनः यस्त्वाम् राजन्मया सार्धमजिनैः प्रतिभासितम् वनम् प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः आयसंहृदयन् नूनम् तस्य दुष्कृत कर्मणः यस्त्वाम् धर्मपरम् श्रेष्ठम् रूक्षाण्य ईदृशम् दुःखमानीय मोदते पापपूरुषः चतुर्णामेव पापानामस्रन्न पतितम् त्वयि भारत निष्कान्तेव नायाजिन वाससि दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः दुर्भ्रातुस्तस्य चोग्रस्य राजम् च इतरेषाम् तु सर्वेषाम् कुरु सत्तम दुःखेनाभिपरीतानाम् नेत्रेभ्यः प्रापतज्जलम् इदम् च शयनम् दृष्ट्वा यच्छासीत् ते पुरातनम् महाराज दुःखानर्हम् सुखोचितं।